गणेशपुराणम् उपासनाखण्डम् अध्यायं 23 भृगुरुवाच विश्वामित्रवच श्रुत्वा भीमः पप्रच्छदं पुनः वैश्यचरितवार्ताया श्रवणे परमोत्सुकः सोमकान्तनृपश्रेष्ठ कथयामि शृणुष्व तद् भीम उवाच श्रुतं दक्षस्य चरितं विश्रान्तं मम मानसं कथं कल्याणवैश्यस्य गतिरासीद्वदत्स्वताम् विश्वामित्र उवाच शृणुष्वै कमनाभीमकथामेधां वदामि ते बल्लालशापात् कल्याणदेहात् शुस्रावशोणितम् असङ्ख्यक्षतसंयुक्तस्रावो वाधिर्यमन्थता मोकदापो दिगन्धित्वं जातं तस्य दुरात्मनः ददर्शेन्दुमदीतस्य दशामाकस्मिकीं ततः किमिदं किमिदं कस्माज्जातमेवं शुशोचतं ज्ञानिनोऽस्य वदान्यस्य वेदद्विजरतस्य च धर्मशास्त्रार्थनिष्ठस्य स्वदारपरितोषिणः अवस्थेयं कथं जादा मम भर्दुर्निरेण सह मुनिरुवाच एवं विलप्य बहुधा निःस्वसन्धि पुनःपुनः तेन बद्धं वने पुत्रं निशम्य रुदधी मुहुः पौरेः सह ययौ तत्र यत्र बद्धो तत्रदेवालयं देवं तत्र देवालयम् देवम् ददर्श गणनायकम् चतुर्भुजम् त्रिनयनम् सिन्धूरारुणविग्रहम् बल्लालम् च सुतम् गजाननम् मुक्तम् निर्व्रणमव्यङ्गं निरीक्ष्य पुरवासिनः उवाचेन्दुमदी क्रुद्धा भर्सयन्ती पुनः पुनः कथं प्रतारिता तद्यवादिभिर्भर्तृसन्निधौ तादृशं तं परित्यज्य पुत्रस्नेहादिहागता पश्यन्तु देवभक्तिं मे पुत्रं कुर्वन्तमीदृशीं मुनिरुवाच विस्मिताः सर्वये वैते न किञ्चित् प्रोचुरन्वपि केचिदूचुर्महाभक्तेर्महिमाकेन गम्यते वीक्ष्य सिन्धूररक्ताङ्गम् रक्तचन्दनचर्चितं रक्ताम्बरं रक्तपुष्पमालाभिरुपशोभितं निर्ममं निरहङ्कारमशुण्ठमिव विघ्नपं निरीक्ष्य तादृशं पुत्रं त्यक्त्वा शोकं ननन्दसा आलिलिङ्गतदा तं नुदपयोधरा आहतं स्वगृहं याव श्यसनं महद उद्धृदं तत्र किं चित्तं कुरूपायं महामदे आवां धन्यतमौ लोके ययोः पुत्रस्त्वमीदृशः सर्वाङ्गक्षधवान् रक्तस्राववान् पूरिगन्धवान् श्यामास्य कृशदायुक्तो बधिरोधान्द एव च एवं विध तं निवेदितुमागधा पितृधर्मेण तेन त्वं तावितो नर्थकृद्यपि तत्रापराधो नैवास्ति श्रुति स्मृति पुराणतः पुत्रधर्मान्निरीक्षस्व कुर्वारोग्यविचारणं त्वया श्लाघ्यतमो लोके पिताते ते पितृवत्सल मातापितृवचः वजकार्यं सत्पुत्रेण यशस्विना पूजनं च तयोः कार्यं पोषणं पालनं तथा औषधान्मन्त्रतश्चापि देवता प्रार्थनादपि उपायं कुरुपुत्रत्वं मयि दृष्टिं निवेशय यशस्ते भविता लोके सौभाग्यं मम बालक इति तस्या वचः श्रुत्वा बल्लालो वाक्यमब्रवीद बल्लाल उवाच कस्य माता पिता कस्य कस्य पुत्रोऽथवा सुहृद विघ्नराजकृतं सर्वम् मानुषस्य अखिलं स्मृतं तस्मान् मम भद्रे मादा देवो विनायकः यो यथा कुरुते कर्म स फलमश्नुते मया समर्पिदो जीवो देवदेवे गजानने तेन जीवस्तथा ज्ञानम् मम दत्तं शुभकृतः प्रासादभञ्जनाद्देवक्षेपणात्ताडनान् मम विनायकादिभक््रस्य तथा प्राप्तं फलं शुभे विचार्यमाणे न मे मादा च सर्वस्य हि पिता देवो माता देवो गजाननः स एव ज्ञानस्त्रादा संहर्ता कालरूपवान् सर्वस्वरूपो देवेन्द्रो ब्रह्मविष्णु शिवात्मकः वृथामयेन दुष्टेन ताडनं निर्घृणेन च कृतं देवस्य विक्षेपः प्रासादस्या विभञ्जनं तस्यास्य दर्शने दोषः पतितस्य महान् भवेद स्नेहं त्यक्वा मदीयं त्वं पदिं स्वं परिषेवय विश्वामित्र उवाच इति पुत्रवच श्रुत्वा सा तं पुनरथा मातो कृपया मातोवाच कृपयानुग्रहात् स्नेहादुच्छापं वक्तुमर्हसि पुत्र उवाच भवान् धरेस्य जननी भविधासि वरार्धिनी अयमेतादृशः पुत्रो भविता तव सुव्रते कल्याणनामा भविता वल्लभः क्षत्रियर्षभः कमलेति च च भविष्यसि दक्ष इत्येव पुत्रस्य नामख्यातं भविष्यति ततो द्वादशवर्षाणि वल्लभस्तप्स्यते तपः अन्धतां बधिरत्वं चक्षतानि मोकतां तथा व्यपनेदुं तु दक्षस्य परं नियममास्थितः अलब्ध्वा सफलं तस्मात् सुपुत्रां त्वाम् शुभाननि निराकरिष्यते गेफा द्विदेशस्था भविष्यसि कस्यचिद् द्विजवर्यस्य द्विरदाननचेतसः दैवास्पर्शेन भद्रेते सम्यक् पुत्रो भविष्यति तत्रैव गणनाथस्य दर्शनं च भविष्यति तदा स दिव्यदेहत्वं प्राप्स्यते द्विरदाननाद इति सर्वं समाख्यादमुच्छापकरणं शुभे भविष्यं कथितं तेद्य यथेष्टं गम्यदां त्वया विश्वामित्र उवाच एवं निराकृदा तेन जननी निरगात्तदा दुःखशोकसमायुक्ता किञ्चिद्धर्शयुधापि च स चारुरोह तद्दिव्यं विमानं भक्तिभाविदं गजाननेन विहिदं बल्लालोधाग भल्लालोधागमद्दिवम् इति ते सर्वमाख्यातं यत्पृष्ठोऽहमिव त्वया या गदिष्टेन वैश्येन सम्प्राप्ता जन्मनोर्द्वयोः यथा जगादबल्लाल सर्वं तदभवत्तदा सा कमला भूत्वा सो भवत्क्षत्रियर्षभः इति उपासना उपासनाखण्डे भविष्यकथनं नाम त्रयोविंशोऽध्यायः ओ